मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं तर्टि त्रि शमीमूलचतुर्थीव्रताचरणवर्णनं श्रीगणेशाय नमः दशरथ उवाच शमीमूले च यस्तिष्ठे चतुर्ध्या मुनिसप्तम सङ्गष्ट्यां तस्य माहात्म्यं वदमे करुणानिधे वसिष्ठ उवाच इति हासं प्रवक्ष्यामि पुरातनभवं नृप सर्वसिद्धिकरम् पूर्णं श्रवणात् पठनान्नृणाम् पाञ्जाले ब्राह्मणः कश्चिदत्रिगोत्रसमुद्भवः पूर्व कर्मविपाकेन कुष्ठयुक्तो बभूवः नानाक्षदः समाकीर्णप्रस्रवत् पूयशोनिदः कीडकैः सर्वतो व्याप्तो ह्यन्धकुब्जो भवन् नृप तं दृष्ट्वा तादृशं पुत्रम् पिता परमदुःखितः अत्रिं जगामशरणं तं पप्रच्छप्रणम्यसः तेनापि कथितं राजन् शमीमूले स्थितोऽभवद चतुर्थीं सङ्कटीं कुर्यात् तदा पापात् प्रमुच्यते ततः सोऽपि स्वपुत्रं तं शमीमूले महीपते समानाय बबन्धैव दाम्ना सर्वार्थः साधकः सूर्योदयात्समारभ्य यावच्चन्द्रोदयो भवद तावत्तत्र महारोगी सो तिष्ठत् बन्धनाकुलः समानीदस्वगृहे सोपि तत्क्षणाद नेत्रयुक्तो बभूवाद रोगादिभिर्विवर्जितः कुब्जताहीनरूपं तं संस्थितं विगतज्वरं तद्दृष्ट्वा परमाश्चर्यं विप्रा सर्वे विसिस्मिरे तदसोऽपि गणेशानमभजन्नित्यमादराद चतुर्थ्यां कृष्णपक्षे वै शमीमूले स्म तिष्ठति अन्ते ब्रह्मभूदो बभूवह। बभूवः एवं तिष्ठेच्छमीमूले सोऽसाध्यं कुरु देवशम् अन्यच्छृणुमहीपालमाहात्म्यं सर्वसिद्धिदं चोरः कश्चिन्महान् पापी न गरे स गदो भवत् गृहं किञ्चित् तत्र प्रविश्य धनं गृहीत्वा निर्यादो नरैर्गृष्ठ पपालसः जनैकोलाहलस्तत्र कृतः परमदारुणः श्रुत्वा राज्ञो ययुर्दूदाशस्त्रहस्ता महाबलाः ज्ञात्वा वृत्तान्तमुग्रं ते धा विधक्रोधसंयुताः वेगेन तं छिन्नाङ्गं पदिदं चौरं दूदासं गृह्यदारुणं तम्बबन्धुः शमीवृक्षे तदो राजानमाययुः समाददा चतुर्धि सा तत्राकस्मान्महीपदे कृष्णासोऽपि महाचौरो शमीमूलस्थितो भवद पञ्चम्यां क्षदहीनाङ्गं चौरं सर्वत्र शोभनं संजातं राजदूतास्ते ज्ञात्वा राज्ञे न्यवेदयन् राजा तत्र समागम्य तं प्रणम्य पुरःस्थितः एतस्मिन्नन्तरे तत्र विमानं सहसागतम् तं तत्रा गृह्य निक्षिप्य गणान् शुण्ठा तान् प्रणम्य सत् पप्र राजर्षिर्गन्तुमुत्सुकान् महासेन उवाच भो भो गणपतेर्दूधा किमनेन कृतं महद वदेद वदेदकरुणायुक्तास्तद्वयं करवामहै गाणेशा उजुः कृष्णपक्षे च दुर्ध्यां यः शमीमूले जपेन्मनुं तिष्ठेत् सूर्योदयाद्यावत् तथा चन्द्रोदयो भवेद निराकारः स विघ्नेशम् पूजयेद्व्रतकारकः पश्चाद्विप्रांश्च सम्भोज्य स्वयं भुञ्जेद वाग्यदः रात्रौ जागरणां गुर्यात् पञ्चम्यां पूजनं पुनः प्रकुर्याद्गणराजस्य स ईप्सितमवाप्नुयाद फलयुक्तः सद्य एव भवत्यत्र न संशयः अन्ते स्वानन्दको भूत्वा ब्रह्मभूतः जायते येवमुक्त्वा गदा दूदाश्चौर्येण सहिता नृप चौरो विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूवः ततो राजा महाभागो गणेशभजने रदः स च दुर्घ्यां तदो राजा गतिं लेभे त्रिलोक्यां व्रतपुण्यदः ब्रह्मादीनां सभायां सगत्वा गत्वा तिष्ठत्स्वयेच्छया पुनः स्वनगरे राजा चम्पावत्यां जगामः एवं सर्वत्र गो रराजे राजमण्डले अन्दे अन्ते सर्वजनैराजा नगरस्थैर्महामदे जगाम विघ्नराजं तं ब्रह्मभूतो बभूवः इदं ते मुख्यमाहात्म्यं शमीमूलस्थितेर्महद चतुर्ध्यां कथितं राजन सङ्गष्ट्यां सर्वसिद्धिदम् शृणुयाद्य पढेद्वास सद्य एव फलं लभेद ईप्सितं गणराजस्य प्रसादान्नत्र संशयः एवं नानाजना राजन्नान्ध्यदोषादिवर्जिताः बभूवुश्चरितं तेषां मया वक्तुं न शक्यते ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शमीमूलचतुर्थीव्रताचरणवर्णनं नाम त्रयत्त्रिंश्योऽध्यायः ॐ